नान्दावद् दशकम् अष्टाङ्गयोगम् <laughs> कल्यताम् मम कुरुष्पतावती कल्यते भवदुपासनयया स्पष्टमष्टवितयोगचर्यया पुष्टया सु कुर्महे दृढममी सुहासनौ पङ्गजात्यमविवा भवत्परा तारमन्त्रमनुचिन्त्य सन्ततौ प्राणवायुमभियम्य वभुषिते प्रयत्नतो दारहेमदिशना मुहुर्मुहो तेन भक्तिरसमन्तराद्रता उद्वहेम भवदङ्कृचिन्तका विस्फुटावयवभेद सुन्दरो त्वबुस्तुशिरशीलनावशात् आश्रमम् मनसि चिन्तयामहे ध्यानयोगनिरदात्वदाश्रया ध्यायताम् सकलमूर्तिमीदृशी उन्मिषन्मधुरताहृदात्मना सान्त्रमोतरसरूपमान्तर ब्रह्मरूपमयितेव भासते तत् समास्वतनरूपिणीम् स्थितिम् त्वत्समाधिमहि विश्वनायका आश्रिता पुनरतत्परिष्युधौ आरपेम कि च दारणादिकम् मुक्तभक्तकुलमौलिताम् गता सञ्चरेम सुगनारदादिभ त्वत्सभाति विजयेतु तु यः पुनर् मङ्क्षुमोक्षरसिकक्रमेण वा योगवश्यमनिलम् शटाश्रयैः उन्नयत्यजसुषुम् नयाशनै लिङ्गदेकमभिसन्ध्यजन्नतो लीयते त्वयि परे निराग्रहा ऊर्ध्वलोककुतुकी तु मूर्तध साध्वमेव करणैर्निरीयते अग्निवासरवलर्षपक्षकै उत्तरायणजुषा च दैवतै प्रापितो भवत्परो मोदबान्ध्रुवपदान्तमीयते आस्तितोत्तमकरालये शेषवक्त्रदघनोष्मणाद्यते ईयते भवदुभाश्रयस्तता वेदसक्पदमतः पुरैव वा तत्र प्राकृत प्रलययेति मोक्तता स्वेष्टया खलु पुरापि मुच्यते संविविद्य जगदन्तमोजसा तस्य च क्षितिपयो महोनिलत् त् प्रकृतिसप्तकावृती तत्तदात्मकतया विचन्सुखी यादिते पदमनावृतम् विभो अर्चिणादिगतिमीतृषिम् व्रजन् विच्युतिम् न भजते जगत्पते सच्चिदात्मकभवद्गुणोदयान् उच्चरन्तमनिलेश पाहि मा श्रीकृष्णगोविन्दहरे मुरारे श्रीनाथनारायण वासुदेव